गणेशपुराणं क्रीडाखण्डम् अध्यायं हण्ड्रेड् एण्ड् सिक्स्टीन् क प्राप्ते मयूरेशे ययुस्तत्र मुनीश्वराः शिवोऽपि गिरिजायुक्तो ययौतं च निरीक्षितुम् औत्सुक्यात् पार्वती चैनं समालिङ्ग्या ब्रवीत् तदा आर्व्युवाच अतिश्रासी दैत्य कठिन से रण सुत कोमला तवांगा कथम शस्त्रण सेृशो दैतो मीब स कथम कोमलांगे युधि विनज ुदत्करुणं देवी धृत्वाङ्गं निजबालकं तदो मुनिगणः शम्भुर्वारयामास तां शिवां शिव शिवा उवाच न जानीषे मयूरेशं सर्वकारणकारणम् अनादिनिधनं देवं वेदान्तागोचरं विभुं त्रयत् त्रिंशत्कोटिदेवैर्नुदं देवारिदारणं सृष्टिस्थितिज्ञानहेतुं लयहेतुमनामयं भूभारोत्तारणार्थाय नानारूपधरं परं ब्रह्माण्डव्याप्तरो माङ्गमेकानेकस्वरूपिणम् तपोबलसमायुक्तं योगशास्त्रसमन्वितं मायाविभेदकं देवं मायिनामपि मायिनं बालभावेऽपि दैत्यानां हन्तारं किन्न वेत्सितं क उवाच एवं स्तुतिं समाकर्ण्य धृष्ठा सा पार्वती तदा तदो दृष्टो मयूरेशो मुनीन्प्राह शिवं शिवां मयूरेश उवाच नभयं वज्रहास्तान्मे अन्यस्मात्तत्कथं भवेद् सर्वेषां नमनान्मादर्मुनीनामाशिषोऽपि च शिवस्य वरदानेन सिन्धुदैत्योजितो मया स्कन्धादयोजिदा येन युध्यन्तेन हितेन ते असङ्ख्यादा कदा देवा दैत्यसेनाचरैर्नरैः अश्रुग्नभ्यः संप्रवृत्ता वीरहर्षकरा बहु ऋणे निपतितान् देवान् विचिन्वामो मुनीश्वराः क उवाच एवं मयूरेशवचो निशम्यप्राहधर्मविद वसिष्ठो मुनिवर्यस्तं यामः सर्वे चलन्तु वै ततो ययौरणे मज्जारक्तवसा गन्धो ख्रातुं यत्र न शक्यते अदिभीषणकायां स्तां दृष्ट्वा बिभत्सरूपां स्तान् प्रफुल्लान् किं शुकानिव विकृतिं परियातानि दानवद्विषां पश्यतां वीरराशींस्तान् वीरोपरि प्रतिष्ठितान् कांश्चिच्च जीवधः कांश्चिन् मूर्च्छितान् शस्त्रवातधः कांश्चिच्च प्रविशीर्णाङ्गान् देवान् देवाव्यकर्षयन् सहसा नवि दुर्देवा देवान्वा दानवानवि अभ्रुवंस्तत्र केजिच्च त्वदर्थं मृत्युमागदाः अन्ते ते दर्शनं प्राप्तमित्युक्त्वा व्यसृजन्नसून् क उवाच एवं श्रुत्वा तु तद्वाक्यं साश्रुकण्ठो मयूरराट भ्रमन् भ्रमन् ददशाग्रे मूर्च्छिदं तुषडाननम् पददश्रो मयूरेश्य स्नेहार्थं चाब्रवीदिति उत्तिष्ठोत्तिष्ठभद्रं ते किं प्राकृतो यथा श्रान्दोसि दैत्यहननाद्यच्छालिङ्गनमध्यमे प्रमार्जितस्तु हस्तेन ततः स प्रोदतिष्ठद प्रमार्जितस्तु हस्तेन ततः स प्रोदतिष्ठद अपश्यन्निकटे देवपादपद्मम्भयापकम् उवाच च मयूरेशं दर्शनात्ते गदं मम सर्वदुःखं श्रमश्चैव विश्रान्तश्चास्मि साम्प्रतम् आलिलिङ्गमयूरेशं दोर्भेर्द्वाशभिस्तदा उभौ यादौरणं गृहीत्वा च परस्परम् अपश्यतां पुरसुप्तं सुप्तं वीरभद्रमिषुक्षदं नन्दिनं च शराखादैपीडितं बलवत्तरं भूतराजं च पुरदो विभिन्नमस्तकं तदा क्रन्दं विकटं चैव पुष्पदन्तं भृशार्दितं ललाडे दृढविद्धं च हिरण्यगर्भमेव च मृदप्रायं च चा चपलं मृदं श्यामलमेव च लम्बकर्णो न चाज्ञास्यीद्भ्रान्त्या कञ्चनसङ्गरे उदानवायुना क्रान्तः चाभवद परमं खेदमापन्नः सोमश्च रक्तलोचनः चेदेश्म मूर्च्छया भृङ्गी पञ्चास्यश्च मुमूर्छया शङ्खप्रेतत्वमापन्नो भयकृत्सर्वयोधिनाम् एवं दृष्ट्वा सर्ववीरान् हदप्रायान् हदानपि चिन्तया परयाविष्टोपप्रच्छदं षडाननम् मयूरेश उवाच असुराश्च स्वकीयाश्च महावीरा कदा मृधे निजधामकदा सर्वे जीवतामत्रकागधिः स्कन्द उवाच अनन्तकोटिब्रह्माण्डनायकस्त्वं गुणेश्वर चतुर्दशानां विद्यानां सर्वासाञ्च स्वयं निधिः कलानां तत्र किम् प्रश्नं करोशित्वं त्वं ममान्दिके नाहं मन्त्रं विजानामि वेद्धत्वं हि न वै सुराः विवर्धयसि कीर्तिं त्वं नानाद्यैत्य विभञ्जनाद यथामदिब्रवीमि त्वामाज्ञया च स्मृतेर्बलाद पूर्वं तु त्रिपुरवधे शिवेन युद्धमद्भुतं कृदं तत्र मृदान् देवान् द्रोणाद्रिवल्लिजं रसं देवक्षदेषु संयोज्य जीवयामास तत्क्षणाद प उवाच वचनं देवो जगादतं षडाननम् कश्चानेदुं व्रजेदद्रिं वल्लीरसमनुत्तमं एवं ब्रुवन्मयूरेशो उज्जीवया उज्जीवयामास तदा निजाङ्गवायुमङ्गदः तदस्ते हर्षसम्पन्ना प्रणेमुस्तं गणेश्वरम् आलिलिङ्गुः पुनर्युद्धं कर्तुं तं च विजिज्ञपुः त्वद्दृष्टिविनिपातेन कृदं। गुणेश्वर उवाच ब्रह्मादयो देवगणास्तु वन्दिवः पराक्रमम् तारकासुर मुख्या दैत्यदानवाः उवाच तदस्तै सहिदा देयूरेश शिव ययौ नमस्कृत शिव गौरी योद्धा गंदुमुद्यद आलिलिंग मुद गौरी शिवस्थ गुेश तद षडाननाद्यास्ते शिवमालिङ्गिरे मुदा वयं रणे निपतिताः पुनः सञ्जीविदाहर मयूरे साङ्गसम्भूद वायुनाद्भुतकारिणा पुनर्युद्धाय या श्यामो शिवाधुना प्रसादात् तव जेष्याम सर्वानेवासुरान्युधि इति श्रीगणेशपुराणे क्रीडाखण्डे क्षणशोधनं नाम षोडशाधिकशतमोऽध्यायः ओ